द्रुपद उवाच अहो रूपमहो धैर्यमहो वीर्यं च शिक्षितं चिन्तयामि दिवा रात्रमर्जुनं प्रतिबान्धवाः भ्रातृभिः सहितो मात्रा सो दह्यत किमाश्चर्यमिदं लोके कालो हिदुरतिक्रमह। दुरतिक्रमः मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यामि साम्प्रतम् अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् याजोपयाजौ सत्कृत्य याचितौ तौ मया भारद्वाजस्य हन्तारम् देवीं चाप्यर्जुनस्य वै लोकस्तद्वेद यच्चैव तथा याजेन वै श्रुतम् याजेन पुत्रकामीयम् हुत्वा चोत्पादितावुभौ धृष्टध्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ किं करिष्यामि तेनष्टाः पाण्डवास्पृथया ब्राह्मण उवाच इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः दृष्ट्वा शोचन्तमत्यर्थे पाञ्चालगुरुरब्रवीत् पुरोधाः सत्त्वसम्पन्नः सम्यग्विद्याविशेषवान् गुरुर्वाच वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः तादृशा न विनश्यन्ति नैव यान्ति पराभवम् मया दृष्टमिदम् सत्यम् शृणुष्वमनुजाधिप ब्राह्मण कथित सत्यम वेदेशुत बृहस्पति मुखेनाथा पौलोम्या च पुराश्रुत नष्ट्रो विसग्रंथ्याप्रुत्या दर्शि उपश्रुतिमाजा पांडवा यीवती पांडवास्ते न संशय मैया दृष्टा लिंगा ध्रुव्य पांडवा यन्निमित्तमिहा यान्ति तच्छृणुष्व नराधिप स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः स्वयंवरस्तु नगरे घुष्यतां राजसत्तमं यत्र वा निवसन्तस्ते पाण्डवाः पृथया दूरस्था वा समीपस्था स्वर्गस्था पाण्डवाः श्रुत्वा स्वयंवरं राजन् समेष्यन्ति न तस्मात् स्वयंवरो राजन् गुह्यताम् माचिरम् कृथाः